ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं ट्वेन्टिसेवेन् गणनाथपराक्रमम् अधनष्टेषु पुत्रेषु शोकानलपरिप्लुतः विललापसदैत्येन्द्रो मत्वा जातं कुलक्षयं हापुत्रा हा गुणोदारा हा मदेकरायणा हा मेत्रसुदापूरा हा मकुल विवर्धना हा, हा समस्त समस्तुश्रेष्ठ मदभनतत्परा हा, हा समस्तुस्त्रीणनमदा दिश्रीतिवाच मे मे वल्गदाधुना किमिदानीमिमं तादमवमुच्य सुखं गताः युष्मान्विना विनान शोभन्दे मम राज्यानि पुत्रकाः रिक्तानि मम गेहानि रिक्दा राजसभापि मे कथमेवं सदा यूयं दुराशयाः अप्र दृश्य भुज सत्वान् भवदो मत्कुलाङ्गुरान् कथमेकपदे दुष्टा वनिता सङ्गरे वधीत् मम सौख्यानि मम नष्टा कुलस्त्रियः इतः साहसानि सुखानि च भवतः सुकृतैर्लब्ध्वा मम पूर्वजनुः कृतैः न शोयं भवतामद्य जादो नष्टस्ततोऽस्म्यहं हाहदोऽस्मि विपन्नोऽस्मि पर्यस्यन् प्रलपन्मुक्तमूर्धजः मूर्च्छया लुप्तहृदयो निष्पपादनुपासनात् विशुक्रश्च विषङ्गश्च कुटिलाक्षश्च संसदि दैवस्य कुटिलक्रमैः विशुक्र उवाच देव किकृत इव प्राप्त शोक्य पश्यता लपस प्रति मृत्यून्महांह पथ वीराम शाश्वतः अशोच्य महवे मृत्यु प्राप्व विनाशा शल्यवदे यस्त्री समागत्य सगत हठा निहति सुभटाणे युक्त दैत्यन पुत्रशोको व्यमुच्यत भंडेन चंडकालाग्नि सदृश क्रोध आदधे सकोश्चात् क्षिप्रमुद्धृत्य खड्गमुग्रं यमोपमं विस्मारिताक्षियुगलो भृश्यं जज्ज्वाल तेजसा इदानीमेव तां दुष्टां खड्गेनानेन खंडशः शकलीकृत्य समरे श्रमं प्राप्स्यामि बन्धुभिः यदिरोषस्खलद्वर्णस्वसन्निव भुजङ्गमः खड्गं विधुन्वन्नुद्धाय प्रचचालादि मत्तवद निरुध्य संभ्रांता सम्भ्रान्ताः सर्वे दानव पुङ्गवाहाच मूचुरधिक्रोधाज्वलन्तो ललिताम् प्रति न तदर्थे त्वया कार्यस्वामिन्सम्भ्रम ईदृशः अस्माभिस्वबलैर्युहृदैरणोत्साहो विधीयते भवदाज्ञालवं प्राप्य समस्तभुवनं हटात विमर्दयितु मीशास्म किमुदां मुग्धभामिनी किं चूषयाम सप्ताब्धीन् क्षोदयामो ध गिरीन् अधरोत्तरमेवैतत्रैलोक्यं करवाम करवामवा चिनदाम सुरान् सर्वान् भिनदाम तदालयान् पिन्षाम हरित्पाला नाज्ञां देहि महामते इत्युदीरिदमाकर्ण्य महाहङ्कारगर्वितम् उवाच वचनं क्रुद्धप्रदिकारुण लोचनः विशुक्रभवदागत्वा मायान्तार्हितवक्ष्मणा जय विघ्नं महायन्द्रं कर्तव्यं कडके द्विषाम् इति तस्य वच विशुक्रो रोषरूषितः मायादिरोहितवपुर्जगामललिताबलं तस्मिन् प्रयादुमुद्युक्ते सुर्योष्ठं समुपागतः पर्यस्तकिरण स्तोमपाडलीकृददिङ्मुखः अनुरागवतिसन्ध्याप्रयान्दं भानुमालिनम् अनुवव्राजपादालकुञ्जे रन्धुमिवोत्सुका वेगात्प्रपतदो भनो देहसङ्गात्समुद्धिताः चरमाब्धेरिव पयकणास्तारा विरेजिरे अधा ससादबहुलं साधमियों सवर्ण सी दुर्ध मधम सूढ़ो गूश शर्व संवृत अदृश्य वपुरापेरे ललिताकटकल खलह गलज्वाल वह मंडल सदयोजनविस्तारामालोकयद्दुर्मतिः परिदो विभ्रमञ्चालमवकाशमवाप्नुवन् दक्षिणं द्वारमासाद्य निदध्यक्षणमुद्धतः तत्रापश्यन्महासत्त्वा सावधाना धृता युधाः आरूढयानाः सन्नद्धवर्माणो द्वारदेशतः स्तम्भिनी प्रमुखा शक्तिर्विशत्यक्षौहिणीयुताः सर्वदा द्वारक्षार्थं निर्दिष्टा दण्डनाधया विलोक्य विस्मयाविष्ठो विचार्य चिरं तदा शालस्य बहिरेवासौ स्थित्वा यन्त्रं समादनोद गव्यूधिमात्रकायामे तत्समानप्रविस्तरे शिलापट्टे सुमहदिप्रालिखद्यन्त्रमुत्तमम् अष्टदिक्ष्वष्टशूलेन संहाराक्षरमौलिना अष्टभिर्दैवतैश्चैव युक्तं यन्त्रम् समालिखत अलसा कृपणादीना नितन्त्रा च प्रमीलिका क्लीबा च निरहङ्गारा चेत्यष्टौ देवता स्मृताः देवताष्टकमेधश्च शूलाष्टकपुडोपरि नियोज्य लिखितं यन्त्रं मायावी सममन्त्रयद पूजा विधाय मंत्र बलिश्चागला तंत्र चारिकिपत् सुर दुर्धिया सेना दुर्ध क्षिप्त्य चे पटका तद्यन्त्रस्य विकारेण कटकस्थास्तु शक्तयः विमोक्त शस्त्रसंज्ञासमास्थिदा दीनमानसाः किं हृदयरसुहैकार्यं शस्त्राशस्त्रिक्रमैरलं जयसिद्धफलं किं वा प्राणिहिंसा च पापदा अमराणां कृते कोऽयं किमस्माकं भविष्यति वृथा कलकलं कृत्वा न फलं युद्धकर्मणा का स्वामिनी महाराज्ञी का वासौ दण्डनायिका का, का वा सा मन्त्रिणी श्याम भृत्यत्वं नोद इह सर्वाभिरस्माभिर्भृत्यभूताभिरेकिका वनिता स्वामिनी कृत्ये किं फलं मोक्ष्यते परं परेषां मर्मभिदुरैरायुद्धैर्नप्रयोजनं युद्धं शाम्यदु च अस्माकं देहशस्त्रक्षतिप्रदं युद्धे च मरणं भावि वृद्धास्युर्जीवितानिनः युद्धे मृत्युर्भवेदेव इति तत्र प्रमैव का उत्साहेन फलं नास्ति निद्रैवैका सुखावहा आलस्य सदृशं नास्ति चित्तविश्रान्तिदायकम् एतादृशीश्च नो ज्ञात्वा सा किं करिष्यति तस्या राज्ञीत्वमपि न समवायेन कल्पितम् एवं चोपेक्षितास्माभिस्सा विनष्टबला भवेत् नष्टसत्वा च सा राज्ञी करिष्यति एवमेवरणारम्भं विमुच्य युधाः शक्तयो निद्रयाद्वारे द्वारे कूर्णमाना इवाभवन् सर्वत्र मान्द्यं कार्येषु महदालस्यमागदं शिथिलं चाभवत्सर्वं शक्तीनां कटकं महत जय विघ्नं महायन्द्रमिति दानवः निर्विद्यतत्प्रभावेण कटकं प्रमिमन्धिषु द्वितीययुद्धदिवसस्यार्धरात्रे गदे सति निस्मृत्य नगराद्भूय त्रिंशदक्षौहिणीवृतः आजगाम पुनर्दैत्यो विशुक्रकटकं द्विशाम् तदस्तस्य निरुद्यो भवन। तदा महानु भावत्वा अश्रूय तदस्तस्वनाथा पिताशक्तटकवाद्विकारर्विघ्नयद्रजृष्टे मद्रिणीदंडनाथ चिंताम वदु महोबधमहत्कष्टमिदमापतितं भयं कस्य वाधविकारेण सैनिका निर्गतोद्यमाः निरस्तायुधसंरम्भा निद्रातन्त्रा विकूर्णिताः न मानयन्ति वाक्यानि चक्रयो शक्रयो निःस्पृहा इमाः इति ते मन्त्रिणी दण्डनादे चिन्तापरायणे चक्रस्यन्दनमारूढे महाराज्ञीं समुचतुः मन्त्रिण्युवाच देवि सख्यविकारोऽयं चक्रयो विगतोऽद्यमाः न शृण्वन्ति महाराज्ञी तवाज्ञां विश्वपालिताम् अन्योन्यं च विरक्तास्ताः पराज्य सर्वकर्मसु निद्रा तन्त्रामुकुलिता दुर्वाक्यानि वितन्वते का दण्डिनी मन्त्रिणी का महाराज्ञीति का पुनः युद्धं च कीदृशमिधि क्षेपं भूरि वितन्वते अस्मिन्नेवन्दरे शत्रुरागच्छति महाबलः उद्दण्डभैरीनिस्वानैर्विभिन्दन्निव रोदसी अत्र यत्प्राप्तरूपं तन्महाराज्ञि प्रपद्यताम् इत्युक्त्वा सह दण्डिन्या मन्त्रिणीप्रणतिं व्यधाद ततः सा ललितादेवी कामेश्वरमुखं प्रदि दत्तदृष्टिस्सह सदतिरक्तरदावलिः तस्यास्मिदप्रभापुञ्झे कुञ्चराकृतिमान्मुखे कटकोटगलद्भान कश्चिदेव व्यजृम्भद जपापटलपाडल्यो बालचन्द्रवपुर्धरः बीजपूरगदामिक्षुचापं शूलं सुदर्शनं सुदर्शनम् अब्ज पाशोत्पलव्रीहिमञ्जरीवरदाङ्कुशान् रत्नकुम्भं च दशभिस्वकैर्हस्थायि समुद्वहन् तुन्दुलश्चन्द्रचूडालो मन्द्रबृंहिदनिस्वनः सिद्धिलक्ष्मी समाश्लिष्टप्रणनामहेश्वरीं तया कृदाशी स महान् गणनाथो गजाननः जयविघ्नमहायन्द्रं भेत्तुं वेगाद्विनिर्ययौ अन्धरे वहिशालस्य भ्रमदन्दावलाननः निभृदं कुत्रचिल्लग्नं जयविग्नं व्यलोकयत। सदेवो व्यलोकयत् स देवो घोरनिर्घादैर्दुस्सहैर्दन्तपातनैः क्षणाचूर्मी करोति स्म जयविघ्नमहाशिलाम् तत्र स्थिताभिर्दुष्टाभिर्देवताभिः सहैव सः परागशेषतां नीत्वा तद्यन्त्रं प्रक्षिपद्दि तद किल किलारावं विवर्जिताः उद्यतासमरं कर्तुं शक्तयशस्त्रपाणयः स कलिदा कुण्ठनिस्वनः जययन्द्रं हि तत्सृष्टं तथा रात्रौ व्यनाशयत इमं वृत्तान्तमाकर्ण्य भण्डः सक्षोभमायययौ ससर्जय बहूनात्मरूपान्तन्तावलाननान् ते कडक्रोड विगलन विगलन्मदसौरभचञ्चलैः चञ्चरीककुलैरग्रे गीयमान महोदयाः स्फुरद्दाडिम किञ्चल्क विक्षेप कररोचिषः सदा रत्नाकरानेक हेलया पादुमुद्यताः आमोदप्रमुखा ऋद्धिमुख्यशक्तिनिषेविताः आमोदश्च प्रमोदश्च मुमुखो दुर्मुखस्तथा अरिघ्नो विघ्नकर्ता च षडेदे विघ्ननायकाः ते सप्तकोटिसङ्ख्यानां हे रम्बाणामधीश्वराः चितास्त महागणपे अग्निप्राकार वलयाध्निगत गजानना क्रोध हूंगंदवान्न प्रचंड फूत्कार बधि विष्ट ष्पपादैत्यसैन्येषु गणचक्रचमूगणः अच्छिदन्निषिदैर्बाणैर्गणनाथस् दानवान् गणनाधेन तस्याभूद्विशुक्रस्य महौजसः युद्धमुद्धद हुङ्कारभिन्नकार्मुकनिस्वनं भ्रुकुडीकुटिले चक्रे दष्टोष्ठमधिपाटलं विशुक्रो युधि बिभ्राणसमयुध्यत तेन सह शस्त्राखट्टननिस्वानैर्हुङ्कारैश्च कूड दैत्यसप्तिकुरक्रीडकुद्दालीकूढनिस्वनैः फेत्कारैश्च गच्छेन्द्राणाम् भये हेशया च हयश्रेण्या रथचक्रस्वनैरपि धनुषां गुणनिस्वानैश्चक्रचीत्करणैरपि शरसात्कारकोषैश्च वीरभाषा अट्टः सैर्महेन्द्राणां सिंहनादैश्च च भूरिशः शुभ्यदिगन्तरं तत्र ववृधे युद्धमुद्धतं त्रिंशदक्षौहिणीसेना विशुक्रस्य दुरात्मनः प्रत्येकं योधयामासु गणनाथा महारथाः दन्तैर्म विभिन् दन्दो विष्ठं यतश्च क्रोधयन्धकर्णतालैः पुष्कलावर्तकोपमैः नास्साश्वासैश्च परुश्रैर्विक्षिपन्तः पदाकिनीं पुरोभिर्मर्दयन्तश्च शैलवप्रसमप्रभैः पिंशन्तश्च पदाकादैः पीनैर्घ्नन्तस्तधोदरैः विभिन्दन्तश्च शूलेन कृत्तन्तश्चक्रपातनैः शङ्खस्वनेन महदात्रासयन्तो वरूधिनीं गणनाधमुखोद्भूता गजवक्राः सहस्रशः धूलिशेषं समस्तं तत्सैन्यं चक्रोर्महोद्यताः अथ क्रोधसम निज सैन्यपुरगम प्रेशयामस गजासमसौ पुनः प्रचंड सिंहनादेन गज दुर्धिया सप्ताक्षीयुक्न युयु स हीयमानं समालोक्य गजासुरभुजाबलं वर्धमानं च तद्वीर्यं विशुक्रः प्रपलायितः स एक गजासुरे च नि विशुक्रे प्रपलायि ललितापेदे महागमपतिमृाद कालरात्रिस्या सारात्रिर्वीर गा ललिता चादी मुदिता बभुवाश पाक्रमे प्रियमाना हो सर्व विदारहाराजी प्रीय गणेश पूर्वपूज्यम श्री ब्रह्मांडमहापुराणे उत्तरभागे हयग्रीवागस्त्य संवाद ललिताख्याणनाथ पराक्रमो नाम सप्तविंशोऽध्यायः ओन्